पंचमोध्यायः विनियोगः ॐ अस्य श्री उत्तरचरित्रस्य रुद्रऋषिः महासरस्वतीदेवता अनुष्टुप्छन्दः भीमाशक्तिः भ्रामरीबीजं सूर्यस्तत्त्वं सामवेदस्वरूपं महासरस्वतीप्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः ध्यानम् ॐ घण्टाशूलहनानि शङ्खमुचलै शक्रं धनुःसायकं हस्ताब्जै दधतिं घनान्तुविलसत् शीतांशतुल्यप्रभां गौरीदेहसमुद्भवां तु जगताम् आधारभूतां महाम् पुर्वामत्र सरस्वतीमनुभजे सुम्भादिदैत्यार्दिनीम् ॐ क्लीं पुरा पुरा सुम्भुभाभ्याम् असुराभ्यां शचीपते त्रैलोक्यं यज्ञभावश्च सितामन्दबलाश्रयां तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् कोबेरमथियाम्यं च चक्राते वरुणस्य च तावेव पवनर्धिं चक्रतो वह्निकर्म च ततो देवाभिनिर्धूता भ्रष्टराज्या पराजिता यदाधिकारा श्रीदशा ताभ्यां सर्वे निराकृताः महाशुराभ्यां तां देवीं संस्मरत्य पराजितां तयास्माकं वरो दत्तो यथा पप्सु स्मिताखिराः भवतां नाशि यस्यावि परमापदः इति मतिं देव हिंवन्तं नगेश्वरं जग्मस्तत्र ततो देवीं विष्णुमायां प्रतुष्टो देवा उचहू नमो देव्यै महादेव्यै शिवायै सततं नमः नमः प्रकृत्यै भद्रायै नीता प्रणता स्मतां रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्दुरोपिण्यै सुखायै सततं नमः कल्याण्य प्रणतां विद्यै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 देव्यै कृत्यै नवोदवः या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नवोदवः या देवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै नमस्तस्यै नमस्तस्यै नवोदवः या देवी सर्वभूतेषु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 नमस्तस्यै नमोदवः या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोदवः ज्यादेवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमौदवः ज्या देवी कृष्णारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोदवः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोदवः या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोदभः ज्यादेवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोदवः ज्ञादेवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोदभः जादेवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै दभोदभः यादेवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै दभोदभः न्या देवी सर्वभूतेषु नमस्तस्यै नमस्तस्यै नमस्तस्यै न भूदभ या देवी सर्वभूतेषु मृत्युरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै न भौधव या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै न भौधव या देवी सर्वभूतेषु दयारूपेण संस्थितां नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनवं या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नवं या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै न भूधव द्या देवी सर्वभूतेषु क्रान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै न भूदव इन्द्रियाणामधिष्ठात्रि भूतानां च अखिलेषु या भूतेषु तत्तं तस्यै व्याप्तिदेव्यै न भूधव चितिरूपेण या कृष्णम् एतद्याप्यस्थ जग नमस्तस्यै नमस्तस्यै नमस्तस्यै न भौरव सुता सुरै पूर्वभिश्च संशया तथा सुरेन्द्रेण दिनेषु सेविता करोतु शा नः शुभहेतरीश्वरी तुभानि भद्राण्यभिहन्तु चापद या साम्प्रतं चोध्यतैत्यतापि तैः अस्माभिरीसा च सुरैर्णमश्चते या च स्मिता तत्क्षणमेव हन्ति नः सर्वापदो भक्तृमिनम्रमृथिवी दितिर्वाच एवं सवादियुक्तानां देवानां तत्र पार्वती नातोमभ्याययौतो ये जाह्नव्या निपुनन्दन सा प्रवृत्तांशुरांशुभ्रभवद्भिः शरीरकोशतश्चास्य समुद्भूता ब्रविशिवा स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतै देवैः समेतैः समरे निशुम्भेन पराजितैः शरीरकोशाद्यतस्तस्याः पार्वत्यानि शिताम्बिका कौसिकीति समस्तेषु ततो लोकेषु गीयते तस्यां विनिर्गतायां तु कृष्णाभुस्सापि पार्वती कालिकेति समाख्याता हिमाचलकृताश्रया ततोऽम्बिकाम् परं रूपं बिभ्राणां सुमनोहरं ददर्शण्डो मुण्डश्च भृत्यौ शुम्भणि ताभ्यां शुम्भाय च ख्याता अतिविषु काप्यास्ते काप्यास्ते महाराज भासयन्ति हिमाचलं नैव तादिक्वचिद्रूपं दृष्टं केनचिदुत्तमं ज्ञायतां काप्यसौ देवी गृह्यतां च सुरेश्वर श्रीरत्नमतिरचरमाङ्गी दोचयन्ते यशस्विषा सा तु तिष्ठति दैत्येन्द्र ताम् भवान् द्रष्टुमर्हति यानि रत्नानि मणयो गजास्वादिन वै प्रभो त्रैलोके तु समस्तानि साम्प्रतम् ते गृहे ऐरावत समानीतो गजरत्नम् पुरन्दरात् पारिजाततरुश्चायं तथैवोच्चैः स्रवाहय विमानं हंस युक्तम् एतत् तिष्ठति तेङ्गळे रत्नभूतं ह्यानीतं यदासीद्वेधसोद्भुतं निधिरे स महापद्म समानीतो धनेश्वरा किञ्चलिक्निं दिदौ चाब्धिर्मालामम्लानपङ्कजां छत्रं तेवारुणं गेहे काञ्चनस्रावि तथाऽयं सन्दनवरो य पुरासि प्रजापते मृत्योरुक्रान्तिता नाम शक्तिरी स त्वयासिता पासां पाशसलिलराज्यस्य पासा भ्रातुस्तो परिग्रहे निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः वह्निरपि ददौ तुभ्यम् अग्निशौचे च व्याससे एवं दयतेन्द्ररत्नानि समस्तानि आहुतानि ते श्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ऋषिर्वाच ऋते वचः शुम्भः स तदा चन्नमुण्डयो रेषयामास दूतं देव्या स्मः इति चेते च वक्तव्या वचनान् मम यथा चाभ्येति संप्रत्या तथा कार्यं त्वया रघुः स तत्र गत्वा यत्रास्ते शैलोद्देशेति शोभने सा देवी तां ततः प्राह सुलक्ष्मणं मधुरया गिरा दूतवाच देवी दयितेश्वरशुम्भत्रैलोक्ये परमेश्वर दूतोऽयं प्रेषितस्तेन त्व सकाशागतः अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु निर्जिताखिलदैत्यारिः स यदा हसृणस्वतत् मम त्रैलोक्यम् अखिलं मम देवावशानुगाह यज्ञभागानहं सर्वान् उपास्नामि पृथक् पृथक् त्रैलोक्यैवरत्नानि मम वश्यान्यशेषतः गजरत्नं च ऋत्रा देवेन्द्रवाहनम् क्षीरोदमश्नोद्भूतम् अश्वरत्नं ममामरे उच्चैः श्रवसमज्ञम् तत्प्रणिपत्य समर्पितं यानि चान्यानि च रत्नभूतानि भूतानि तानि मय्यैव शोभने श्रीरत्नभूतां त्वां देवी लोके मन्यामहे वयं सात्मस्मानुपागच्छ यतो रत्नभुजो वयं माम् वा ममानुजं वापि निशुम्भमनुविक्रमं भज त्वं चञ्चलापाङ्गि रत्नभूता शिवै यतः परमैश्वर्यवचनं प्राप्स्यसि मत्परिग्रहात् एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ऋषिरुवाच इत्युक्ता सा तदा देवी गम्भीरान्तस्मिता जगौ दुर्गा भगवती भद्रा य एतम् धारिते जगन् देव्युवाच सत्यमुक्तम् नात्र मिथ्या किञ्चित्प्रयोदितम् तैलोक्याधिपतिशुम्भो निशुम्भश्चापि तादृशः किं त्वत्र यत्प्रतिज्ञातुम् मिथ्या तत्क्रियते कथम् श्रूयताम् अल्पबुद्धित्वात् प्रतिज्ञाया कृता पुरां वो मां यतिसङ्ग्रामे यो मे दर्पम् जपोहति यो मे प्रतिबलो लोके समे भर्ता भविष्यति तदा गच्छति शुम्भोऽत्र निशुम्भो वा महाशुरः मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु धूत्वाच अवलिप्तासिमेवं तं देवि ब्रूहि ममाग्रतः त्रैलोके कपुमा तिष्ठे अग्रे शुम्भनिशुम्भयो अन्येषामपि दैत्यानां सर्वे देवान तिष्ठन्ति सम्मुखे देवी किं पुनः स्त्रीत्वमेकिका इन्द्राध्यासकलादेवा तत्सू येषां न संयुगे शुभादीनां कथं तेषां स्त्रीप्रयासि सम्मुखं सा त्वं गच्छ ममैवोक्ता पार्श्वं शुम्भनिशुम्भयोः केशाकर्षणनिर्धूत गौरवामागमिष्यसि देव्युवाच एवमेतद्बले शुम्भो निशुम्भश्चातिवीर्यवान् किं करोमि प्रतिज्ञामि यदनालोचितापुरा पुरा स त्वं गच्छ मयोक्तं ते तदा चक्षुवासुरेन्द्राय स च युक्तं करोति तद् ॐ श्रीमार्कुण्डे पुराणे सावर्णिके देवी महात्म्ये देव्या ज्योतिसंवादे